श्रीमद्भागवन् मापुराणं द्वादश स्कन्ध एकादशोऽध्यायः शौन उवाच सुको यदा भगवान् विष्णुराताय शृण्वते सौरो गणो मासि मासि नानावसि सप्तकः तेषां नामानि कर्माणि संयुक्ता नामधीश्वरैः ब्रोहिण श्रद्धधानानां व्यूहं तुर्यात्मनो हरे श्रुत्वाच अनाद्यविद्या विष्णोरात्मनः सर्वदेहिनां निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते एक एव लोकानां सूर्य आत्मादिकृधरी सर्ववेदक्रियामूलम् ऋषिभिर्बहुधोदितः कालो देशक्रियाकर्ता करणं कार्यमागमः द्रव्यं फलमिति ब्रह्मण्णवधोक्तो जया हरिः मध्वादिशो द्वादशसु भगवान् कालरूपधे लोकतन्त्राय चरति पृथग्द्वादशभिर्गणैः धाता कृतस्थलीहेतिर्वासुकीरसकिन्मुने पुलस्त्यस्तुम्बुरूरिति मधुमासं नयन्त्य मे अर्यमा पुलहोथौजाः प्रहेति पुञ्जिकस्थली नार्दकच्छ निरश्च नयन्त्येते स्म माधवम् मित्रो त्रिपौरुषे योऽथ तक्षको मेन का हाः नृतस्वनिति चेते शुक्रमासं नयन्त्य मे वसिष्ठो वरुणोरम्भा सहजन्यस्तथाहुः शुक्रचित्रस्वनंैव शुचिमासं नयन्त्य मे निन्द्रो विश्वावशु श्रोता एलापत्र तथाङ्गिराः ब्रह्मलोचाराक्षसो वर्यो नभो मासं नयन्त्य मे विवस्वानुग्रहसेनस्य व्याघ्र आसारणो भृगुः अनुम्लोचा शङ्खपालो नमस्याख्यं नयन्त्यमे पूषा धनञ्जयोवातशुषेण सुरचेस्तथा कृताति गौतमश्चेति तपोमासं नयन्त्यमी क्रतुर्वचा भरद्वाज पर्जन्यशेनजित्तथा विस्तैरावतश्चैव तपस्याख्यं नयन्त्य मे अथांशोकस्य पश्चाख्यम् ऋतसेनस्तथोर्वशी विद्युच्छत्रुर्महाशङ्खसहो मासं नयन्त्य मे भगस्फुरुजोरिष्टने विन् आयुष्य पञ्चमः कर्कोटकपूर्वचित्ते पुष्यमासं नयन्त्य मे त्वष्टारुचैकतनय कम्बलश्च तिलोत्तमा ब्रह्मापेतोथ सतजे धृतराष्ट इशंभराः रश्वत्वरो विष्णोरश्वत्वरो ब्रह्मासुर्यवर्चास्य सत्यजे विश्वामित्रो मखापेत उर्जमासं नयन्त्य मे भगवतो विष्णो आदित्यस्य विभूतयः स्मरतां सन्धयो नृणां हरन्त्योः दिने दिने द्वादस्वपि देवो स षड्भिरस्य मयि चरन् समन्तात्तनुते परत्रेह च सम्मतिं सामर्यजर्भेस्तल्लिङ्गैर्षयशप्तुवन्ति गन्धर्वास्तं प्रगायन्ते नित्यन्त्यप्सरसो ग्रतः उन्नह्यन्ती रथं नागाग्रामण्यो रथियोजकाः चोदयन्ति रथं पृष्ठे नैरिता बलशालिनः बालखिल्लासहस्राणि षष्टिब्रह्मर्षयो मनाः पुरतोऽभिमुखं यान्ति स्तुवन्ते स्तुतिभिर्विभुम् एवं धनादिनिधनो भगवान् हरेश्वरः कल्पे कल्पे समात्मानं व्यूहलोकानवत्यजः इति श्रीमद्भागुते महापुराणे पारहंसां चयितायां द्वादश स्कन्धे आदित्यव्यो हविवरणं नामैकादशोऽध्यायः